अथ श्रीमहागणपतिसहस्रनामस्तोत्रम् व्यास उवाच कथम् नाम्नाम् सहस्रम् तम् गणेश उपदिष्टवान् शिवदम् तन्ममाचक्ष्वलोकानुग्रहतत्पर ब्रह्मोवाच देव पुरा दि पुरात्र अनर्चना गणेश जातो किल मनसा स विधार्य दृशे विघ्न कारण महागणपति भक्त सर्च यथाधि विघ्न प्रशमनोपापछत्जि सन्तुष्टः पूजया शम्भोर्महागणपतिस्वयम् सर्वविघ्नप्रशमनम् सर्वकामफलप्रदम् तदस्तस्मै स्वगम् नाम्नाम् सहस्रमिदमब्रवील् अस्य श्रीमहागणपतिसहस्रनामस्तोत्र मालामन्त्रस्य महागणेश ऋषिः अनष्टुप्छन्दः महागणपतिर्देवता गम्बीजम् पुं शक्तिः स्वाहाकीलकम् चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॐ गो मध्यमाभ्यां नमः ॐ गैं अनामिकाभ्यां नमः ॐ गौ अैष्ठिकाभ्यां नमः ॐ गः करतलकरपृष्ठाभ्यां नमः स्वाहा ॐ गो शितायै वषट् ॐ गै कहराय हुं ॐ गौमेक्रक्रयाय वौषट् ॐ गास्त्राय फट् ध्या ीन्द्राननमिन्दुचूडमरुणच्छायम् त्रिनेत्रान्वितम् आश्लिष्टम् प्रियया सपद्मकरया स्वाङ्गस्थया सन्ततम् बीजापुरगदा धनुस्त्रिशिखयुक्चक्राब्जपाशोत्पल्यग्रस्वविशालरत्नकलशान् हस्तैवाहन्तम् भजे गण्डपाले गलद्दानपूरलालसमानसान् द्विरेफान् कर्णतालाभ्याम् वारयन्तम् मुहुर्मुहुः कराग्रहृतमाणिक्यकुम्भवक्त्र विनिर्गतैः रत्नवर्षैस्त्रीणयन्तम् साधकान् मदविह्वलम् माणिक्यमुकुटोपेतं सर्वाभरणभूषितम् पञ्चभक्त्रो दश भुजो भालचन्द्रशिप्रभः मुण्डमाल सर्पभूषो ओ श्वरो गणक्रीडो गणनाथो गणाधिपः एकदं श्रो प्रमोद आमोद सुरानन्दो मदोत्कटः हे रम्ब शम्बरः शम्भु लम्ब कर्णो महाबलः नन्दनोऽलम्पटो भेरुर्मेघनादो गणञ्जयः विनायको विरूपाक्षो धीरशूरोवरप्रदः महागणपतिर्बुद्धिः प्रियः क्षिप्रसादनः रुद्रप्रियो गणाध्यक्ष उमा पुत्रो गणाशनः कुमारगुरुरीशानपुत्रो मूषकवाहनः सिद्धिः प्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः कटङ्कटो राजपुत्रः शालकः संमितोमितः कूष्माण्ड्रसाम सम्भूतिर्दुर्जयो दुर्जयो जयः भूपतिर्भुवन भो पतिताय विश्वर्ता विश्वमुख विश्व निधिघि कविकवीनाषभो ब्रह्मण ब्रह्मणस्पति ज्येष्ठ राजपतिर्धि प्रिय पति प्रिय हिणमयरास्थ सूर्यमंडलमध्य कराहलिध्वस्तसिन्धुः सलिलः स्पूषदन्दभित् उमाङ्केलिगुरुही मुक्तिदः कुलपालनः किरीटी कुण्डली हारी वनमाली मनोमयः वैमुख्य हर दैत्यश्रीपादाहरिजिता क्षितिः सद्यो जातस्वर्णमुञ्जमे युस्वप्नकृत्प्रसवणो गुणीनादप्रतिष्ठितः सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः णाधिराजो विजय स्थिरो गजपति ध्वजी देवदेव स्मरप्राणदीपको वायुकीलकः वरदो नादोन्नादभिन्नबलाहकः वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः शम्भुवक्त्रोद्भवः शम्भुकोपः शम्भुहास्य भूः शम्भुतेजाः शिवाशोहारी गौरी स्वभावह उमाङ्गमलजो गौरी भवः। यज्ञकायो महानादो गिरिवर्ष्माशुभाननः सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ब्रह्माण्ड कुम्भश्चिद् व्योमभालः सत्यशिरोरुहः चयोन्मेष निमेषोऽर्कसोमदृके गिरीन्द्रैकरदो धर्म धर्मेष्टसाम बृंहितः ग्रहर्कदश नो वाणीजिह्वो वासवनासिकः कुलाचलांसोमार्कघण्डो रुद्रशिरोधरः नदी नद भुजः सर्पाङ्गुणीकर्तारकानकः भ्रूमध्यसंस्थितकरो ब्रह्म विद्यामदोदकः मेर पृष्ठोर्नवोदरः कुक्षिस्थ यक्ष गन्धर्वरक्ष किन्नरमानुषः पृथ्वीकटिः घ मुत्लांगुस्त्रयी तनु जोतिर्मंडल लांगूलो हृदय निश्चल हृत्मकर्णी का शालिके सवर सद्भ्यान निगट पूजा वही वृद्पी कश्यपु गणपो विष्टी बलि यशस्वी धार्मिक सोजाः प्रथमः प्रथमेश्वरः चिन्तामणि द्वीपपतिः कल्पद्रुमवनालयः रत्नमण्डप मध्यस्थो रत्नसिंहासनाश्रयः तीव्राशिरो स कामदायिनीपीठस्पुरदुर्ग्रासनाश्रयः तेजोऽवती शिरो रत्नम् सत्या नित्यावतंसितः स विघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः पीण पीन जंग भक्षा बृहद्भुजः पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्ब नासिकः भग्नवामरदस्त्वङ्गः सव्यदन्तो महाहनुः सर्वकारुशीशोत्र सर्पयजोपवीतवाटक सर्पग्रीवेयकांगद सर्पकक्षोद सर्पराजोत्य रक्तो रक्ताबरधरोक्त माल्य रक्तेक्षणो रक्तकरो रक्तोष्ठपल्लवः श्वेतश्वेताम्बरधर श्वेतमाल्यविभूषणः श्वेतातपत्र श्वेता श्वेता श्वेता रुचिरः श्वेतचामरबीजितः सर्वावयवसम्पूर्ण सर्वलक्षणलक्षितः सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् सर्वदैककरः शार्ङ्गि बीजापूरी गदाधरःरः शूली चक्रवाणिः सरोजभृत काशीधृतोत्पलः शाली मञ्जरीभृत् स्वदन्तभृत् कल्पवल्लीधरो विश्वाभयदैककरो वशी रक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः त्री कंबुधर विस्तुस मुद्दा मातुंगधरस्ूत कलिकुठार वाण पुष्कस्थस्वर्ण घटी पूर्ण रनावर्शक भारती सुंदरी नाथो विनायक रिप्रिय महालक्ष्मी प्रियतम रमा रमेश पूर्वाङ्गो दक्षिणो मामहेश्वरः महीवराह वामाङ्गो रतिगन्धर्पश्चिमः आमोदमोद जननः स प्रमोद प्रमोदनः समेधितसमृद्धि श्रीरृद्धिसिद्धिप्रवर्तकः दधत सौमुख्य सुमुख कान्तिकन्दलिताश्रयः मदनावत घ्रि कृत्रुर्मुख विघ्न संपल्लो बघन सर्वो निद्रव्निघ्न चरण द्राविशक्ति सत्ता तीव्र प्रसन्न नयनोज्वाइकदृग मोहिनी मोहनो भोगदाय कामिणीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः वसुन्धरा मदोन्नद्धमहाशङ्खनिधिः प्रभुः न मद्वसुमतीमौलिमहापद्मनिधिः प्रभुः सर्वसद्गुरुसंसेव्य शोचिष्केशृदाश्रयः ईशानमूर्धा देवेन्द्रशिखापवननन्दनः अग्र प्रत्यग्रनयनो दिव्यास्त्राणाम् प्रयोगवित् ऐरावतादिसर्वाशावाराणावरणप्रियः वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः जया जय परीवारो विजयाभिजयावहः अजितार्चित पादाब्जो नित्या नित्यावतंसितः विलासिनी कृतोल्लासौण्डी सौन्दर्यमण्डितः अनन्दानन्द सुखतः सुमङ्गलसुमङ्गलः इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिर्निशैलितः सुभगासं श्रितपदो ललिता ललिताश्रयः ललिता कामिनी कामनः कामकामिनीके लिलालितः सरस्वत्याश्रयो गौरीनन्दनश्रीनिकेतनः गुरगुप्तपद वाचा सिद्धो बागश्वरी पति नलिनी कामको बामो ज्येष्ठ मनोरम रौद्री मुद्रित पौस्तुंगशक्ति कश्वाजिजन ना नवा शक्ति, शक्ति अमृताभ्यसो मदूर्णित उत्ष्ट गण गन, उच्छिष्ट गणेशो गणनायक साो दिगंबर अणपातृष्टिप्रमेय जमर अनारथोह्यच्युत मृतम्क्षर अप्रतर्क्योक्षनाधारो ना, का अप्रतर्क्यो ना, ना मल अमोघ सिद्धिवैतमघोरोन अनाकारोबूम्यलग्नो व्यक्त आधार पीठ आधार आधाराधेयवर्जि आधारा आखुकेतन आशा पूरक आखु महारथ इक्षु सागर मध्यस्थ इक्षु भक्षण लाल इक्षु चापातिरेक श्रीरिक्षु चापनिषेवितः इन्द्रगोपसमान श्रीरिन्द्रनील समद्युतिः इन्दीवरदल श्याम इन्दुमण्डलनिर्मलः एतप्रिय इडाभाग इराधामेन्दिरा प्रियः इक्ष्वाकुविघ्न विध्वंसि इति कर्तव्यतेर्सितः ईशान मौलिरीशान ईशानसुखीतिहा ईषणात्रयकल्पान्त ईशामात्रविवर्जितः उपेन्द्रगुडुबृन्मौलिरुम्बेरकबलिप्रियः उन्नताननवत्र उदार त्रिदशाग्रणेः ऊर्जस्वानोष्मनवद ऊहापोहदुरासदः ऋग्युस्म संभो सिलभ ऋण विमोचकुप्त विध्न स्वक्ता शक्ति सुन दुप्तश्रेर्विमुखाचा लूताफोटनाशन एकार पीठ मध्यस्थ एकताशन ये चिदाखिल दैत्यश्रीरेधिताखिल संश्रयः ऐश्वर्य निधिरैश्वर्यमहि कामुष्णिकप्रदः ऐरमदसमोन्मेष ऐरावत निभाननः ओङ्कारवाच्य ओङ्कार वोच स्वानोषधीपतिः अङ्कुशस्सुरनागानामङ्कुशसुरविद्विषाम् असमस्तविसर्गान्तपदेषु परिकीर्तितः कमण्डलुधर कल्पकवर्दीकलभाननः कर्म साक्षी कर्म कर्ता कर्मा कर्मफलप्रदः कदम्बगोलकाकारः कूष्माण्डगणनायकः कारुण्यदेहः कपिलः का कथकः का कटिसूत्रभृते खर्वः खड्गप्रियः खड्गान्तान्तस्थकनि खल्वाटश्रृङ्गनिलयः खड्वाङ्गी खदुरासदः गुणाढ्यो गहनोगस्थो गद्यपद्य सुधार्णवः गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः गुहाशयो गुहाभ्यस्तो गुरुगम्यो गुरोर्गुरुः घण्टाघर्घरि गर कामालिघट कुम्भो घटोधरः चण्डश्चण्डेश्वर सुहृच्छण्डीश चण्डविक्रमः छन्दोच्छन्दो दुर्लक्ष्यन्द विग्रहः जगद्यो निर्जगत्साक्षी जगदीशो जगन्मयः जपरो ज्यो जत्वा सिंहासनप्रभुः झल्झलोल्लसद्दानझङ्गारिभ्रमराकुलः ऋङ्कार स्फार सम्रावष्टङ्गारि मणिनूपुरः ी पल्लवान्तस्थ सर्वमन्त्रैकसिद्धितः डिण्डिमुण्डो डाविनेशो डामरो डिण्डिमप्रियः ध्रक्काणिनादमुदितो ठौको डुण्डिविनायकः तत्त्वानाम् परमम् तत्त्वम् तत्त्वम् पदनिरूपितः तारकान्तरसंस्थानस्तारकस्तारकान्तकः प्रियस्थाता सानुस्थानुप्रियस्थातास्थावरम् जङ्गमम् जगत् दक्षयज्ञप्रमथनो दाता दानवमोहनः दयावान् दिव्यविभवो दण्ड मृर्दण्डनायकः दन्तप्रभिन्ना भ्रमाणो दैत्यवारणधारणः द्विपठनो देवार्चमृगजागृतिः धनधान्यपतिर्धन्यो धनदो धरणीधरः ध्यानैकप्रकटोऽध्येयो ध्यानम् ध्यानपरायणः नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः निष्कलो निर्मलो नित्यो नित्या निरामयः परं व्यो मरम् धाम परमात्मा परम् पदम् परा परः पशुपतिः पशुपाशविमोचकः पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः फलहस्तः निपतिः फेत्कारपाणितप्रियः बाणार्जिताङ्घ्रियुगल ब्रह्म ब्रह्म पद ब्रह्मचारी बृहस्पति ब्रह्म पद ब्रह्मण्य ब्रह्म विप्रिय बृहन्ना चीत ब्रह्मावलिखल ब्रोक्षेपदत् लक्ष्मी गो भर्गो भद्रो भयावह भगवान्क्तिलभ भूति दो भूति भव्यो भूतालयो भोगजाता भ्रूमध्यगोचरः मन्त्रो मन्त्रपतिर्मन्त्री मदमत्कमनोरमः मेखलाभान् मन्द्रगतिर्मतिमत्कमलेक्षणः महाबलो महावीर्यो महाप्राणो महामनाः यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः यशस्करो योगगम्यो याज्ञिगो याजकप्रियः रसो रसप्रियो रसयो रञ्जको रावणार्चितः रक्षो रक्षाकरो रत्नगर्भो राज्यसुखप्रदः लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लण्डुकप्रियः लानप्रियो लास्यपरो लाभकृल्लोकविष्णुतः वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः वाम देवो विश्वनेता वज्रि वज्रनिवारणः विश्वबन्धन विश्वम्भाधारो विश्वेश्वर प्रभुः शब्दब्रह्म समप्राप्य शम्भशक्तिर्गणेश्वरः शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः षडतु षडक्षरः संसार वैद्यः सर्वज्ञः सर्वेषिस्थितिलय क्रीडः सुरगुञ्जरभेदनः सिन्दूरितमहाकुम्भः साक्षी समुद्रमथनः स्वसंवेद्य स्वदक्षिणः हव्यो हुत प्रियो हर्षो हृल्लेखामन्त्रमध्यकः क्षेत्रिवः क्षमा भक्ता क्षमा परपरायणः क्षेमानन्दः क्षोणीसुरद्रुमः धर्मप्रदोऽर्थदः कामदाता वीरश्री प्रदो विजयप्रदः सर्ववश्यकरो गर्भदोषः पुत्रपौत्रतः मेधादःकीर्तिदर्शोकहारी दौर्भाग्यनाशनः प्रतिवालिमुखस्तम्भोरुष्टचित्तप्रसादनः पराभिचारशमनो दुःखभञ्जनकारकः लवस्त्रुतिकलाकाष्ठानिमेषस्तत्पराक्षणः घटीमुहूर्तः प्रहरो दिवा नक्तमहर्निशम् पक्षो मासोयनं वर्षं युगं कल्पो महालयः राशिस्तारास्थितिर्योग वारः कर्णमंशकम् लग्नं होराकालचक्रं मेरुः सप्त ऋषयो कालसृष्टिस्थितिर्विश्वम् स्थावरम् स्थावरं जंगमं चयत। भूरा वोग्निर्मरुद्योमाहङ्कृतिः प्रकृतिः पुमान् ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्ति शिवः त्रिदशात् पितरः सिद्धा यक्षा साध्या विद्याधरा भूता मनुष्याः पशाः कगाः समुद्राश्रयितशैलाभूतम् भव्यम् भवोद्भवः साङ्ख्यम् पातञ्जलम् योगम् पुराणानि श्रुति स्मृतिः वेदाङ्गानि सदाचारोमी मां सा न्यायविस्तरः आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकम् वैखानसं भागवतम् सात्वतम् पाञ्चरात्रकम् शैवं पाशुपतम् कालामुखम् भैरवशासनम् शाक्तं वैनायकं सौरं जैनमा संहिता सतसद्व्यक्तमव्यक्तं सचेतनमचेतनम् द्वन्द्वो मोक्षः सुखं भोगो योगः सत्यमनुर्महान् स्वस्ति कुम्फट् ज्ञानं विज्ञानमानन्द बोधस् एक एकाक्षराधार एकाक्षरपरायणः एकाग्रधीरेकवीर एकोनेकस्वरूपधृक् द्विरूपो द्विभुजोऽध्यक्षो द्विरतोऽद्विपरक्षकः द्वैमातुरोऽद्विवदनो द्वन्द्वातीतोऽद्वयाधिकः त्रिधामात्रिकरस्त्रेतात्रिवर्गफलदायकः त्रिगुणात्मा त्रिलोगादिस्त्रिशक्तिशस्त्रिलोचनः चतुर्वागुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः चतुर्विधो वा यमयश्चतुर्वर्माश्रमाश्रयः चतुर पंचाक्षरा पंचात्मा पंचा पंचकृत पंचाधारण पंचाक्षरपरायण पंचलाल पंचगर पंच प्रावभा पंच ब्रह्मयस्फूर्ति पंचाववा पंचभ्य प्रिय पंच बाण पंच शिवात्मक षटो षट्चक्रधामाेदकः षडध्वन्त विध्वंसि षडङ्गुलमहाहृदः षण्मुखभ्राता षट्षद्विपरिवारितः षड्वैरिवर्ग विध्वंसे षडोर्मिभयभञ्जनः षट् तर्कदोर लोकमुकुटः सप्त सप्ति वरप्रदः सप्ताङ्गराज्य सुखदः सप्त ऋषिगण मण्डितः सेवितः प्रकृतिकारणम् अष्टाङ्गयोगबलभोरष्टभत्राम्बुजासनः अष्टशक्तिसमृद्ध श्रीरष्टैश्वर्यप्रदायकः अष्टपीठोपपीठ श्रीरष्टमातृसमावृतः अष्टभैरवसेव्योऽष्टवसुवन्द्योष्टमूर्तिभृत् अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहमिष्प्रियः नवनागासनाध्यासे नव निध्यनुशासितः नवद्वारपुराधारो नवधारनिकेतनः नव नारायणस्तुत्यो नव दुर्गानिषेवितः नवनाथमहानाथो नव नागविभूषणः नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः दशात्मको दश भुजो दश दिक्पतिवन्दितः दशाध्यायो दशा दशेन्द्रियनियामकः दशाक्षरमहामन्त्रो दशा्यापि विग्रहः एकादशादिभिरुद्रैस्तुत एकादशाक्षरः द्वादशोद्दण्ड दोर्दण्डो द्वादशान्तनिकेतनः त्रयोदशभिधा भिन्न विश्वे देवाधिदैवतम् चतुर्दशेन्द्रभरतश्चतुर्दश मनुःप्रभुः चतुर्दशादिविद्याढ्यश्चतुर्दश जगत्प्रभुः साम पञ्चदशः पञ्चदशी शीतांशुनिर्मलः षोडशाधार निलयः षोडश स्वरमातृकः षोडशान्तपदावासः षोडशेन्दुकलात्मकः कला सप्तदशी सप्तदश सप्तदशाक्षरः अष्टादश दीपपतिरष्टादश पुराणकृते अष्टादशोषधि सृष्टिरष्टादश विधि अष्टादशविव्यष्टि समष्टिज्ञानकोविदः एकविंशः पुमारेकविंशत्यङ्गुलिपल्लवः एक चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः सप्तविंशतितारेशः सप्तविंशतियोगकृते द्वात्रिंशद्भैरवादीशश्चतुर्त्रिंशन्महाकृतः षट्त्रिंशत्तत्त्वसम्भोतिरष्टात्रिंशत्कलात्मकः न मदेकोणपञ्चाशन्मरुद्वर्गनिरर्गलः पञ्चाशदक्षरश्रेणि पञ्चाशद् रुद्रविग्रहः पञ्चाशद्विष्णुशक्तिशः पञ्चाशन्मातृकालयः द्विपञ्चाशद्वपुश्रेणि त्रिषष्ट्यक्षरसंश्रयः चतुष्षष्ट्यर्ननिर्णेता चतुष्षष्टिकलानिधिः चतुष्षष्टिमहासिद्धयोगिनी वृन्दवन्दितः अष्टषष्टि महातीर्थक्षेत्रभैरवभावनः चतुर्नवति मन्त्रात्मा षण्णवत्यभिग प्रभुः शतानन्दशतृति शतवत्रायतेक्षणः शतानीकशतमख शत धारावरायुधः सहस्रपत्र निलयः सहस्रनाम संस्तुत्यः सहस्राक्षबलाभहः दशसहस्रफणिभृत्पणिराजकृतासनः अष्टाशीतिसहस्राद्यमगरशिस्तोत्रयन्त्रितः लक्षाधीशप्रियाधारो लक्ष्याधारमनोमयः चतुर्लक्ष जपप्रीयश्चतुर्लक्षप्रकाशकः जीवानाम चशीतिलक्षाण जीवा कोटिू प्रतीकाश कोटिचंद्राशुन शिवा भवाकोटिनायकधुरंधर सप्तिमहामंत्रितायवदुतिशत्कोटिसुर श्रेणी प्रणत पादुक अनन्तनामानन्तश्रीरनन्तानन्दसौख्यदः इति वैनायकम् नाम्नाम् सहस्रमिदमीरितम् इदम् ब्राह्मे मुहूर्ते पठति प्रत्यहम् नरः करस्थम् तस्य सकलम् इति कामुष्मितम् सुखम् आयुरारोग्यमैश्वर्यम् धैर्यम् शौर्यम् बलम् यशः मेधाप्रज्ञा हृदिक्कान्तिः सौभाग्यमधिरूपता सत्यं दयाक्षमाशान्तिर्दाक्षिण्यम् धर्मशीलता जगत् संयमनम् विश्वसंवादो वादपाटवम् प्रभापाण्डित्यमौदार्यम् गाम्भीर्यम् ब्रह्म औन्नत्यं च कुलम् प्रतापो वीर्यमार्यता ज्ञानं धैर्यं विज्ञान्य धैर्य विश्वातिशिता धनधान्यावृद्धिश्चृ वश्यं चतुर्विधं चुर्विधम जपादस्य प्रजायते